शुक्लाम् वरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् सर्वविघ्नोपशान्तरे प्राणानाय ममोपात्त समस्त दुरिलटक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् अस्माकम् सह कुटुम्बानाम् क्षेमस्थैर्य वीर्यविजय आयुरारोग्य ऐश्वर्याणाम् अभिवृद्ध्यर्थम् आयुष्मत् जीवत् सत्सन्तान सौभाग्य सकलैश्वर्य समृद्ध्यर्थम् समस्त मङ्गल अवाप्त्यर्थम् समस्त दुरितोपशान्त्यर्थम् धर्मार्थ काम्यमोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थम् सर्वारिष्ट शान्त्यर्थम् सर्वाभीष्टसिद्ध्यर्थम् उमामहेश्वर प्रीत्यर्थम् उमामहेश्वर प्रसादसिद्ध्यर्थम् पञ्चाक्षरसहित महान्यास महामन्त्र जपम् करिष्ये ओम् कभी गणानाम् त गणपतिगम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पदानशिण्डो त्रिभिः सीदसादनम् ओम् महागणपदजय नमः अथातः पञ्चाङ्गरुद्राणाम् पञ्चाक्षरमहामन्त्रसम्मिलित न्यासपूर्वकम् जपहोमार्चनाभिषेकमिधिकास्यामः नमस्ते रुद्रमन्यबुतो दयिटभे नमः नमस्ते अस्तु धम् वने बाहभ्यामुदते नमः जातजिष शिवतमा शिवम् बभवते धनुमः शिवादरब्जातजानो रुद्रमृडजा कम् खङ्गम् -कम खङ्गम् -कम -कम -कम -कम -कम -कम यवलवशषसो ॐ नमो भगवते रुद्राज ॐ ह्रीम् नमः शिवाय पूर्वाङ्गरुद्राय नमः तपेतु मृत्यरमृतम् न आगन्वैव स्वता न अभयम् क्रणात् पर्णम् वनस्पतेरिवाभिनशीजतागम् रजिषान्नश्चेपतिः झञ्झञ्झञ्झञ्झम् यरलजरसो ॐ नमो भगवते रुद्राय ॐ ह्रीम् नमः शिवाय दक्षिणाङ्गरुद्रा नमः निधनपदजय नमः निधनपदान्त्रिकाजनः ऊर्ध्वाजनमाः ऊर्ध्वलिङ्गाजनमः हिरण्याजनमः हिरण्यलिङ्गाजनः सुवर्णाजनमः सुवर्णलिङ्गाजनमः दिव्या जनमः दिव्यलिङ्गाजनमवा जनमः भवलिङ्गाजनमः सर्वा जनमः सर्वलिङ्गा जनमः शिवा जनमः शिवलिङ्गा जनमः ज्वला जनमः ज्वललिङ्गा जनमः आत्मा जनमः आत्मलिङ्गा जनमः परमाजनमः परमलिङ्गा जनमः एतत्सामस्य सौर्यस्य सर्वलिङ्गग्रस्था भजते पाणिमन्त्रम् पवित्रम् तम् धम् धम् धम् नम् यवलवषटसः ॐ नमो थं थं थं थं थं भगवते रुद्राज ॐ ह्रीं नमः शिवाय पश्चिमाङ्गरुद्राजनमः यो रुद्र अग्नो यो अक्षवटधीशयो रुद्र विश्वा भुवना विवेचरस्मि रुद्राजनमोऽस्तु तम् धम् धम् धम् नम् जवलवषटसः ॐ नमो भगवते रुद्राज ्रीम् नमः शिवाय उत्तराङ्गरुद्राय नमः प्राणानाम् ग्रन्थिरतिरुद्रामा विशान्तकः तेनान्नेनाप्यायस्वान् नमो रुद्राय विष्णवे मृत्यर्मे पाहि पम् भम् बम्भ्रह्मम् यवलवषडसः ॐ नमो भगवते रुद्राय ॐ ह्रीम् नमः शिवाय ऊर्ध्वाङ्गरुद्राज नमः तत्परिडाय विद्महे महादेवाज धीमहे तन्ना रुद्र प्रचोदयात् संवर्ताग्नितडि प्रतीकणकोणम् गम्भीरध्वनि सामवेदजनकम् ताम्राधरम् सुन्दरम् अर्धेन्द्युज्युति लोलपिङ्गळाभार प्रबद्धोदकम् वन्दे सिद्धसुर सुरेन्द्र न भितम् पूर्वम् मुखम् शोदिनः ओम् नमो भगवते रुद्राय ॐ ह्रीम् नमः शिवाय पूर्वाङ्गमुखा जनमः अघोरेब्जघरेभ्य अघोरघौरतरेभ्यः सर्वेभ्य सर्वेभ्य नमस्ते अस्तु रुद्ररूपेभ्यः कालाब्रभ्रमराञ्जनद्वितिनिभञ्जवृत्तपिङ्गे क्षणम् कर्णोद्भासित भोगिमस्तगमनि प्रोत्भिन्नतम् श्रङ्कुरम् सर्पप्रोतकपालशुक्तिशकलव्याकीर्णताशेखरम् वन्दे दक्षिणमीश्वरस्य वदनम् चाधर्वनादोदयम् ओम् नमो भगवते रुद्राज ओम् ह्रीम् नमः शिवाय दक्षिणाङ्गमुखा जनमः सद्यो जातम् प्रभज्जामि सद्यो जाता जवे नमो नमः भवे भवे भवे भव स्वमाम् प्रालेयामलमिन्द्रगुण्डधवलङ्गो क्षीरवेन प्रभम् भस्माभ्यङ्गमनङ्गदेहदहन ज्वालावलीलोचनम् विष्णुब्रह्म मरुद्गनार्चितपदम् चग्वेलालयम् वन्देहम् सकलम् कलङ्गरहितम् ताडोर्मुखम् नमो भगवते रुद्राय ॐ ह्रीम् नमः शिवाय पश्चिमाङ्गमुखा जनमः वामदेवा जनमो वाजेष्ठ जनम श्रेष्ठ जनमो भुद्रा जनमक्काल जनमक्कलविकरण जनमो बल विकरणा जनमो बला स्निग्धम् बिम्बफलाधरम् प्रहसिजम् नीलालकालम् कृतम् वन्दे याजुडवेदघोटजनकम् भक्त्रम् हरस्योत्तरम् ओम् नमो भगवते रुद्राज ओम् ह्रीम् नमः शिवाय उत्तराङ्गमुखाय नमः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपदिर्ब्रह्म शिवो अस्तु सदा शिवो व्यक्ताब् परमम् क्षत्रम् शतत्वाधिकम् तस्मादुत्तरतत्त्वमक्षरमिति ध्येयम् सदा योगिभिज ओङ्कारादि समस्तमन्त्रजलकम् सूक्ष्मादि सूक्ष्मम् परम् वन्दे पञ्चममीश्वरस्य वदनम् खव्यापितेजोमजम् ओम् नमो भगवते रुद्राज ॐ ह्रीम् नमः शिवाय ऊर्ध्वाङ्गमुखाय नमः या ते रुद्रशिवातनोरघोरापापकाशिनी तजा नस्तनुभाषन्तमजागिरिशन्ताभिचाकी ओम् ह्रीम् नमः शिवाज शिगाजे नमः तस्मिन्महत्यम् नवे अन्तरिक्षे भवाधि त्रेडागुन्दरस्रजो जने वधन्वाणि तन्वसि ॐ ह्रीम् नमः शिवाय शिरसे नमः Shivaja सहस्राणि रुद्राधिभूम्याजो जने मधम्बाम् ॐ ह्रीम् नमः शिवाजान्तरिताभे षदतिथिर्जरोषत् धृषद्वरसदृषो गोजालम् Om ह्रीम् नमः Shivaja भ्रोर्मध्या नमः ॐ ह्रीम् नमः शिवाय नेत्राभ्यान्नमः नमः श्रुत्याज जध्याज जनमः काट्याज जीत्याज जनम सूद्या जजरस्याज नमो नाद्याज वै च ॐ ह्रीम् नमः शिवाय कर्णाभ्यान्नमः मानस्तोकेतन जयमान आजुष्यमानो गोढमानो अश्वद्रभाषितो हवि नमसा विधेमते ओम् ह्रीम् नमः शिवाय आशिकाधनुयम् सहस्राक्षसते निशीर्ज शल्यानाम् मुखा शिवानः सुमना भव ॐ ह्रीम् नमः शिवाय जनवः नीलग्रीवास्य जिगण्ठाः सर्वादः क्षमाचराः त्रेडागम् दलचजो जने वधन्वा नितन्वसि ॐ हृम् नमः शिवाय कण्ठा जनवः नीलग्रीवास्य जिगण्ठादिवगम् रुद्रामुपसृताः त्रेडागम् दलस्रजो जने वधन्वा नितन्वसि ॐ हृम् नमः शिवाय उपघण्ठा जनवः नमस्ते अस्वाजुधा जानातताजधट् नवे उभाभ्यामुदते नमो बाहुद्भ्यान्तपन्मने ओम् ह्रीम् नमः शिवाय जा बाहुभ्यान्नमः जाते हेतम्मे घट्टमहस्ते भगोवते धनः तयास्मानि विश्वदस्त्वमजक्ष्मजा परिभ्रुजा ॐ ह्रीम् नमः शिवाय उप नमः परिणो रुद्रश्च हेतुवृणत्वपरि तेडस्य दुर्मिरामगवद्भ्यस्तनक्ष्मीभ्यस्तो गाजतनजाम् ह्रीम् नमः शिवाज मणिबन्धाभ्यां नमः एते युद्धानि प्रचरन्ति शिखावन्तो निषङ्गिणः तेडागुन्दरस्य योजने मधन्वानितम् ॐ ह्रीम् नमः शिवाज हस्ताभ्यान्नमः सद्यो जातम् प्रभज्जामि सद्यो जाताजवे वै नमो नमः भवे भवे नाति भवे भव स्वान् भवोद्भवाय नमः ॐ ह्रीम् नमः वामदेवा जनमो ज्येष्ठा जनम श्रेष्ठा जनमो रुद्रा जनमः काला जनमः कलविकरणा जनमो बलविकरणा जनमो बला जनमो बलप्रमथना जनमः सर्वभूत जनमो मनोन्मना जनमः ओम् ह्रीन्नमः शिवाज तर्जनीभ्यान्नमःभ्यो दगौरेभ्य गौरगौरधरेभ्यः सर्वेभ्य सर्वेभ्यो नमस्तेऽस्त्वरुद्ररूपेभ्यः ओम् ह्रीम् नमः शिवाय मध्यमाभ्यां नमः तत्पुरुडाज विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदजात् ॐ ह्रीम् नमः शिवाय अनामिकाभ्यां नमः ईशानः सर्वविद्यानामीश्वरः सर्वभूत्राणाम् ब्रह्माधिपदर्ब्रह्मणोऽधिपदर् ब्रह्मा शिवो मे हस्तु सदा शिवा ॐ ह्रीं नमः शिवाय कनिष्ठिकाब्दान्नमः नमो हिरण्यबाहवे हिरण्यवर्णाज हिरण्यरूपाजिरण्यपतजेऽम्बिकापदज उमापतजय पशुपतजे नमो नमः ॐ ह्रीम् नमः शिवाय करदलगरभृष्टाभ्याम् नमः नमो वक्केभ्यो देवारागम् हृदयेभ्यः ॐ ह्रीम् नमः शिवाज हृदया जनवः ये वृक्षेडु तस्मिन् जरानीलग्नी विलोहिताः तेडागुम् जनेभम्बानितम् श्री ॐ ह्रीम् नमः शिवाय उदराजनमः नमः सम्भवे जमजो भवे च ॐ ह्रीम् नमः शिवाज कक्षाभ्याम् नमः नमो गणेभ्यो गणपतेभ्यश्च भो नमः ॐ ह्रीम् नमः शिवाय पृष्ठाय नमः नमश्चक्षब्जो रथगारेभ्यश्च नो नमः ओम् ह्रीम् नमः शिवाय कक्षाभ्यां नमः नमो हिरण्यपाघवे सेनान्ये दिशाञ्जपद ॐ ह्रीम् नमः शिवाय पार्श्वाभ्यां नमः विद्यम् धनुक्रपद्यनो विषल्यो बालवाङ्मुता अनेशम् नस्यैर वाभुरस्य निषम् गतिः ॐ ह्रीम् नमः शिवाज जठराज नमः हिरण्यगर्भ समवत्तताग्रे भूतस्य जातः परिरेक आसीत् सदाधारपृथिवीन्द्यामुतेराङ्कस्मै देवाय गर्भि ॐ ह्रीम् नमः शिवाज नाभ्यै नमः मे झट्टम शिवदमशिवानः सुमनाभवा परमे वृक्षायुधन् निधा जगृत्यम् वसार आचुरपि नागम्भिभ्रदागिः ॐ ह्रीम् नमः शिवाय काट्ये नमः ये भूता नामधिपदजाभिशिगादवर्जिनः हेडागुन्दरत्रयो जने वधम्बा निम् ह्रीम् नमः शिवाय गुह्याय नमः ये अन्नेड् विविध्यन् च पात्रेण न्द्रजो तन्मसि ॐ ह्रीम् नमः शिवाय जान। अण्डाभ्यान्नमः शशिराजातवेदाक्षरम् परमम् पदम् वेदानागम् शिरसि माता आयुष्मन्तम् करोतु माम् ओम् ह्रीम् नमः शिवाय अपाणाय नमः मानो महान्तमुतमानो अर्पगम् मानमुक्षन्तमुतमान उक्षितम् माणोवधितरम् मोदमातरम् प्रजामानस्तनवो रुद्रलीर्णः ओम् ह्रीम् नमः शिवाय ऊरभ्याम् नमः यटते रुद्रभागस्पञ्जुटस्वतेनावसेन परोमोजवतो ह्यवततढम् वापि नाकहस्तकृत्यवासाः ॐ ह्रीम् नमः शिवाय जालभ्याम् नमः सघम् षट्टित् सोमबाबाहुषर्जोद्बदम् प्रतिहिताभिरस्ता बृहस्पते परितेजारथेन रक्षोहामित्राकम् अवबाधमानः ॐ ह्रीम् नमः शिवाज जङ्घाभ्यान्नमः विश्वम् भूतम् भूतं चित्रम् चित्रं जातम् जायमानम् चजट सर्वश्चेट रुद्रस्तस्मै रुद्रा च ॐ ह्रीम् नमः शिवाज कुल्फाभ्यान्नमः ये प्रथाम् प्रथिरक्षदा जुधाः त्रेढागम् दशस्रजो जने मधम् वा नितम् रसि ॐ ह्रीम् नमः शिवाज पादाभ्यान्नमः अध्यवोचदधिभक्ता प्रथमो देव्यो बिटके अहिगिश्च सर्वाहम् जम्भजम् सर्वाश्च यातु धान्यः नमः शिवाज कवचाजुम् नमो बिल्मिने जगवचिने च नमः श्रुताय जश्रुतधैनाय च ॐ ह्रीम् नमः शिवाय उपगवजाजहुम् नमो हस्तु नीलग्नीवाज रहस्राक्षाय मेढुटे अथोजे हस्तत्वादोहन्त्रे जागरम् नमः ॐ ह्रीम् नमः शिवाय त्रितीयनेत्राय पौषटे प्रमञ्च धन्वनस्तमुभजोरार्त्रिजोज्याम् याश्च देहस्य जिडवः पराता भगवोप ॐ ह्रीम् नमः शिवाज अस्त्राजफटे यदेतामन्तश्च भोरागम् रश्च दिशो रुद्रापितस्थिरे ते रागम् दशत्रजो जने मधम् वा निदम्वरि ॐ ह्रीम् नमः शिवाय इति दिग्बन्धः ॐ ह्रीम् नमः शिवाय ॐे नमः ॐ ह्रीम् नमः शिवाय नम् नासिकाभ्याम् नमः ॐ ह्रीम् नमः शिवाय ॐ ललाटा जनम ॐ ह्रीम् नमः शिवाय भंमुखाजनम्रीम् नमः शिवाय गङ्गण्ठाजनमो ह्रीम् नमः शिवाय वं हृदया जनम ॐ ह्रीम् नमः शिवाय तेम् दक्षिणहस्ता जनम ॐ ह्रीम् नमः शिवाय रुंवामहस्ता जनमः ॐ ह्रीम् नमः शिवाय द्रान्नाभ्ये नमः ॐ ह्रीम् नमः शिवाय यम् पादाभ्याम् नमः सद्यो जातुम् प्रपज्यामि सद्यो जाता जवे नमो नमः भवे भवे नातिभवे भव स्वमाम् भवाद्भवा जनमः ओम् ह्रीम् नमः शिवाय पादाभ्याम् नमः जनमो ज्येष्ठा जनमः श्रेष्ठा जनमो रुद्रा जनमक्काल जनमकलविकरणा जनमोबलविकरणा जनमो बला जनमो बलप्रमधना जनमः जनमो मनोम् मना ॐ ह्रीम् नमः शिवाज ऊर्वमध्यमाभ्याम् नमः ठोरेभ्यो झघोरेभ्य घोरघोलधरेभ्यः नमस्तेद्रेभ्य ओम ह्रीम नम शिवाय हृदया जनमत्डा विदे महादेवायधमहे तोद्रचोदयाद ह्री नम शिवाय मुखा जनम ः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्म शिवो मे वस्तु सदा शिवो ओम् ह्रेम् नमः शिवाय मोर्ध्रे नमः अस्य श्रीहंसगायत्रीस्तोत्रमहामन्त्रस्य अव्यक्तपरब्रह्मरिषिः अव्यक्तगायत्री छन्दः परमहंसो देवता हंसाम् बीजम् अहंसीम् शक्तिः अंसोम् केलकम् परमहंसप्रसादसिद्ध्यर्थेदपे विनियोगः हंसाम् अङ्गुष्ठाभ्यान्नमः हंसीम् तर्जिनीऽभ्यान्नमः हंसोम् मध्यमाद्भ्यान्नमः हंसीम् अनामिकाभ्यान्नमः हंसौम् कनिष्ठिकाभ्यान्नमः हंसः करतलकरपृष्ठाभ्यान्नमः हंसाम् हृदयाज नमः हंसीं शरथे स्वाहा हंसोम् शिखाजीवषट हंसीम् कवचाजहुम् हंसोम् नेत्रजा जोषट हंसहास्राजभट भोर्भवत् स्वरमिति दिग्बन्धः पश्यामि सर्वजनांतरस्थं सर्वजनान्तरस्थम् नमामि हंसम् परमात्मरूपम् देहो देवालयः प्रोक्तो जीवो देवः सनातनः त्यजेत भावेन स्वहम्भावेण पूजयेत् हंस हंसात् परम हंस सोऽगम् हंसः हंस हंसाय विद्महे परमहंसाय धीमहि तन्नोऽहंस प्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नोऽहंस प्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नोऽहंस प्रचोदयात् नाम सदाशिवः एव न्यासमितिम् कृत्वा ततः सम्पुटमारभेत् स्वरो ओम् लम् त्राता रमिन्द्रमविता रविन्द्रगम् हवे हवे सुहवंशो रमिन्द्रम् कुरेण शक्रम् वरुहतमिन्द्रज्ञस्वस्ति नाम गवाः ॐ लौम् भूर्भुवस्वः पूर्वदिग्भागे इन्द्राय वज्रहस्तायदेवाधिपतजेरापदवाहनाय साङ्गाचषाजुजाजेजपरिवाराय सर्वालङ्कारभोषिदाय उमामहेश्वर मारदाय नमः ओम् ह्रीम् नमः शिवाय पूर्वदिग्भागे ललाटस्थाने लम् इन्द्राय नीतो वरद भवत इन्द्रः संरक्षत ओम्भवस्वन्नाग्ने वर्णस्य विद्वान् देवस्य हेडोपजात यदिष्ठो वह्नितवत्सोऽसुजादो विश्वाग्मध्यस्मते नाम्राम्बोद्भवस्वः आग्नेदग्भागे अग्ने शक्तिहस्ताजतेजोधिवजने अजवाहनाय साङ्गाजधाजिराजे तपरिवाराय सर्वालङ्कारभोषिजाय उमामहेश्वरपारमः ओम् ह्रीम् नमः शिवाय अग्ने दिग्भागे नेत्रजो स्थानेरम् अग्निरे नमः अग्निः सुप्रीतो वरदो भवत अग्निः संरक्षत ओम्भुवस्व ओम् हम् सुगण्णः यस्मिन्नक्षत्रे जमजेति राजा यस्मिन्नेन अभ्युञ्चन्त देवाः तदश्च चित्रज्ञहविडा जाम ओं दक्षिणदिग्भागे यमाजदण्डहस्ताजधर्मादि महिरवाहनाय साङ्गाजराजदाजे सपरिवाराय सर्वालङ्कारभोषिदाय उमामहेश्वरवारम् ह्रेम् नमः शिवाय दक्षिणदिग्भागे कर्णजोस्तारेऽहं यमा जनम यमस्वप्रेतो वरद भवतु यमः संरक्षत ओम्भवः स्वरा भंशम् असंवन्तमनिजमानमिच्छस्तेन स्थेत्यान्तस्करस्यान्वेषि अन्यमस्मरिच्छसात् जित्या नमो देवि निरृते तुभ्यवस्तु भंशाम्बोर्भवस्वः निरृतदिग्भागे निरृतरे खड्गहस्ताजलक्षाधिपतने नरबाहणाय साङ्गाजधाजुधाजषर्चने सपरिवाराय सर्वालङ्कारभोजराज उमामहेश्वरवारुणराज नमः ओम् ह्रीम् नमः शिवाय निररतिदिग्भाजे मुखस्थाने शर्निरृदरे नमः निररतिः सुप्रीतो वरदो भवत निररतिः संरक्षत ओम् भ्राद्भवः सुवरो गम् वम् तत्त्वायामि ब्रह्मणा वन्दमानस्तदास्तेजमानो हविर्भिः रेणमानो वरुणे हबोद्धुरुषिम् समानहाजुःप्रमोषीः गम्बम्भोर्भवस्वः पश्चिमदिग्भागे वरुणाजपादहस्ताज जलाधिपतदे मकरवाहनाय साङ्गाजसाजराजषट्जे सपरिवाराय सर्वालङ्कारभोटिराज उमामहेश्वरवारुणराजनमः ॐ ह्रीम् नमः शिवाय पश्चिमदिग्भागे बाह्वोस्थाने त्वम् वरुणाजनमः वरुणः सुप्रीतो वरदो भवतो वरुणः वरोम् वं यम् पानो निजिद्भिः शतिनीभिरद्भरम् सहस्रिणिभिरुपजाहिम् वायो अस्मिन् हविडिमादजस्व योऽयम् पादस्वस्तिभिः सदानः वं यम् भोर्भवस्वः वायुज्यदिग्भागे वाजवे साङ्कुषध्वजहस्ताय प्राणाधिपददे मृगवाहनाय साङ्गाज राजदाज सर्वालङ्कारभोजिराय उमामहेश्वरवायलनमः ओम् ह्रीम् नमः शिवाय वायव्यदिग्भागे नासिकजोस्थानेयम् वायवे नमः वायुः सुप्रीतो वरदो भवत वायुः संरक्षत ओम् भूर्भवः स्वरा तेम् वजं सोमम् रते तव मनस्तनाडविर्भवः प्रजावन्त श्रीमहि उत्तरदिग्भागे सोमाय अमृतकलशहस्ताजनक्षत्राधिपजते अश्ववाहनाय श्राङ्गाजराजिदाज्यजे सपरिवाराय सर्वालङ्कारभोजिदाय उमामहेश्वरवारुदा जनमः ॐ ह्रीम् नमः शिवाय उत्तरदिग्भागे हृदयस्थाने संसोमा जनमः सोमः सुप्रीतो वरद भवत सोमः भुवस्वरो वृंसम् तमीशानम् जगातस्तसृढस्पतिम् धियम् जिन्ममवासे होमहे वयम् पूषा नो यथा वेदसमसद्विधे रक्षितापाजुरदब्धस्वस्थे ऋं शम्भोद्भुवस्वः ईशानदिग्भागे ईशानाय त्रिशूलहस्तादभूताधिपतिते घृढपवाहनाय साङ्गाजधाजराजधेथपरिवाराय सर्वालङ्कारभोटिराज उमामहेश्वरवार्षदा जनमः ओम् ह्रीम् नमः शिवाय ईशानदिग्भागेनाभिस्थानेष् ईशानजनमः ईशानः सुप्रीतो वरदो भवतो ईशानः संरक्षत ओम्भोर्भवः सुवरो द्राम्खम् अस्मे रुद्रामेघनापर्वदासौरत्रहत्ते परोषाः यः शंस तेऽस्तु पते धाजी वज्र इन्द्रज्येष्ठा अस्माम् एवन्तु देवाः द्राम् खम्भोर्भुवस्वः ऊर्ध्व दिग्भागे ब्रह्मणे पद्महस्ताय प्रजातिपरजे हंसवाहनाय साङ्गाजसादिराज सर्चने सपरिवाराज सर्वालङ्कारभोटिराजपुमामहेश्वरपारुदाय नमः ओम् ह्रीम् नमः शिवाज ऊर्ध्वदिग्भागे मूर्ध्निस्थाने क्षणुब्रह्मणे नमः ब्रह्मा सुप्रीतो वरदो भवत् ब्रह्मा संरक्षत ओम्भवस्वर यम् ह्रीम् श्याणामृतिविभवानक्षरानिवेशने यच्छारः सर्वप्रधाः यम् ह्रीम् भवद्भुवस्वः अधोदिग्भागे विष्णवे चक्रहस्ताय लोकाधिपजने गरुडवाहणाय साङ्गाजधाजधाजक्षणे सपरिवाराय सर्वालङ्कारभोटिदाय उमामहेश्वरपारुषदाय नमः ॐ ह्रीम् नमः शिवाय अधोदिग्भागे पादजोस्थाने श्रीम् विष्णवेणवः विष्णु सुप्रीतो वरद भवत विष्णुः संरक्षतु ओम् भोर्भुवस्सुवः ओम् अम् नमः शम्भवे जमजो भवे ज नमः शङ्कराय जमयस्कराय ज नमः शिवाय च शिवतराज च विभोरजिप्रवाहणोरोद्रेनानीकेन पाहि माग्ने शिखास्थाने रुद्राजनमः ओम् भोर्भुवःसु वः ओम् आम् नमः शम्भवे जमजो भवे जनमः शङ्कराज दमयस्कराज जनम शिवाज ज शिवतराज च बह्निरजिहव्यवाहनो रौद्रेणाकेन पाहि माग्नेपहि मामावाहि ओम् भोर्भुवःसुवरू ओम् ह्रीम् नमः शिवाय शिरस्थाने रुद्राजनमः ओम् भोर्भुवस्सुवः ओम् ईम् नमः शम्भवे जमजो भवे, जम भवे जनमः शङ्कराय जमजस्कराय ज नमः शिवाय ज शिवतराय च स्वात्रोऽ सिप्रजयदारोद्रेनानीकेन माहि माग्नेविब्रीहि मामाहिःभुवःसुवरो ओम् ह्रीम् नमः शिवाय मूर्ध्नि स्थाने रुद्राज नमः ओम् भोर्भुवः सुभः ओम् यीम् नमः शम्भवे जमजो भवे ज नमः शङ्कराज जमज स्थलाज रमः शिवाय च शिवतराय चो विश्ववेदारौद्रेणानिकेन पायमाग्नेपृहि मामाहि ईम् भोर्भवः सुभरो ओम् ह्रीम् नमः शिवाय ललाटस्थाने रुद्राज नमः ॐ भोर्भवस्सुवः ओम् ओम् नमः शम्भवे जमजो भवे ज नमः शङ्कराज जमयस्कराज जा। च नमः जा। शिवाज च शिवतराज च उषिगसि गभीरौद्रेणानिकेन पाहि माग्नेर्प्रिहि माहिर्भवः ॐ ह्रीम् नमः शिवाज भ्रूस्थाने रुद्राज नमः ओम् भूर्भुवः सुवः ओम् ॐ नमः शम्भवे जमजो भवे ज नमः शङ्कराय जमयस्कराय ज नमः शिवायज शिवधरायज अङ्गारिरशिवम्भारी रौद्रेणानिकेन नमः शिवाय मुघस्थाने रुद्राजनमः ओम् भोर्भुवस्सुवः ॐ हृम् नमः शम्भवे जमजोभवे जनमः शङ्कराज जमजस्कराज ज नमः शिवाय ज शिवतराज अवश्यसिधुवस्वान् रौद्रेणाहि ओम् ह्रीम् नमः शिवाय कण्ठस्थाने रुद्राजनमः र्भुवस्वः ॐ ्रीम् नमः शम्भवे जमजो भवे जनमः शङ्कराय जमजस्कराय ज नमः शिवाय ज शिवदराय च शृन्ध्योरशिमार्जालीजोरोद्रेणानिकेन पाहि नमः शिवाय बाह्वो स्थाने र्भुवःसुवः ॐ लिम् नमः शम्भवे चमजो भवे च नमः शङ्कराय जमजस्कराय च नमः शिवाय जिवतराज च सम्राटशिकृशानो रौद्रे नारीकेन पाहि माग्नेपमाहिंसे लिम् भोर्भुवःस्सुभरो ओम् नमः शिवाय उरस्थाने रुद्राज नमः ओम् भोर्भुवस्वः नमः शम्भवे जमजो भवे जनम शङ्कराज जमयस्कराज नमः शिवाज ज शिवतराज परिहजोऽशि पवमानो रौद्रेणाईकेन पाहि माग्नेऽपि विहि मा मामाहिंसे लीम् भूर्भुवःस्वरो ओम् ह्रीम् नमः शिवाय हृदयस्थाने रुद्राज नमः ॐ भूर्भुवःस्वः ओम् एम् नमः जमजो भवे ज जम नमः शङ्कराज जमयस्कराज नमः शिवाय च शिवतराज च पृथक्पशिनभस्वान् रौद्रेनानीकेन पाहि माहि माहिम् भूर्भुवःस्वरो ओम् ह्रीम् नमः नाभिस्थाने रुद्राज नमः ॐ ओम भोर्भुवःस्वः ओम् ऐम् नमः शम्भवे जमजो भवे जनमः शङ्कराज दमजस्कराज द नमः शिवाज जशिवधराजसंरहव्यसोदोरोद्रे नानीकेन पाहि माहि भूर्भुवस्वरा कम् ह्रीम् नमः शिवाय कटिस्थाने रुद्राज नमः वम् भार्भुवस्वः ओम् ओ नमः शम्भवे जमज भवे ज नमः शङ्कराज दमजस्कराज नमः शिवाय ज शिवदराज च रितधामाजजुवर्जो धीरौद्रेनानीकेन पाहि माग्नेपमाहिंसीः ओम् भूर्भवस्वरू ॐ ह्रीम् नमः ऊर्वोस्थाने रुद्राज नमः ॐ भूर्भवस्वः ॐ औम् नमः शम्भवे जमजो भवे ज नमः शङ्कराय जमयस्कराज नमः शिवाज जिवदराज ज ब्रह्मज्योतिरशिसुमर्धामारोद्रेणानीकेन पाहि मामाहिः ॐ भूर्भुवः सुवरो ओम् ह्रीम् नमः शिवाय जाम्भोस्थाने नमः ॐ भूर्भुवःस्वः ओम् आम् नमः शम्भवे जमजो भवे ज नमः शङ्कराज दमयस्कराज द नमः शिवाज शिवधराज अजोऽस्येकपाद्रौद्रे नारीकेरपाहि मामाहिंसीः अम्भोर्भुवःसुवरो ओम् ह्रीम् नमः शिवाय जङ्घयोस्थाने रुद्राजनमःम् भूर्भुवःस्वः ओम् आह नमः शम्भवे जमजो भवे ज नमः शङ्कराजमजस्तराज ज नमः शिवाज जिवतराजिबुद्धिजो रुद्रे नीकेन पाहि महाग्ने वरो ओम् ह्रीम् नमः शिवाय पादजोस्थाने रुद्राज नमः स्वगस्थिगतैः सर्वपापैः प्रमुच्यते सर्वभूतेष्वपराजितो भवति ततो यक्षगन्धर्वभूतप्रेतभिषा च ब्रह्म राक्षसयमदूरदशाकिणी दाकिणी सर्पस्वापतस्करात् उपद्रवाद्युपघाताः सर्वे ज्वलन्तम् पश्यन्तु माम् या ज्येष्ठा वुटसो निमृतश्च ताः सन्दधामिहबिटा घृतेन ओम् ह्रीम् नमः शिवाज गुह्याज नमः अभोध्यग्न्यः समिधा जनानाम् प्रतिधेनुरिवाजति मृषासम् यह्वाजिवप्रभया मृज्यः नाप्रभा नव शिश्रतेनागमज्झ ओम् ह्रीम् नमः शिवाज नाग्भ्ये नमः अग्निर्मूर्धादिवः कगुत्पतिः पृथिव्या अजम् अपायम् रेतांसिजन्वति ओम् ह्रीम् नमः शिवाय हृदया जनमः मूर्धानन्दिव अरजम् पृथिव्या वैश्वानरवृताम् कविकम् सम्राजमतिथिञ्जनानामासन्नापाद्रम् जनयन्त देवाः ओम् नमः शिवाय कण्ठाजनमः मर्माणि ते वर्मभिश्चादजाभि सोमस्त्वा राजामृते नाभिवस्ता पुरोर्वरीयो वरिवस्ते अस्तु जयन्तम् त्वामनुमदन्तु देवा ओम् ह्रीम् नमः शिवाय मुघाजनमः जातवेदा ऊर्जम् पुष्ट्यम् दददभ्यापभृत्त्वा ओम् ह्रीम् नमः शिवाय शिरसे नमः ब्रह्मात्मन्वदसृजत तदकामजता समात्मनापद्येति आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमकम् होतः प्रत्यशृणोत् स दश होतो म् वाजेतम् दशहोत किम् सन्तम् दशहोतेत्यारक्षते परोक्षेण परोक्षप्रिया इबहिरेवाः आत्मन्नात्मन्नित्यामन्त्रजता तस्मै सप्तम किम् हूतः प्रत्यशृणोत् स सप्तहूतो भवत् सप्तहूतो हवीनामैषः तम् वाजेतकम् सप्तहोतकिम् सन्तम् सप्त होतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रजत तस्मैषष्ठकम् होतः प्रत्यशृणोरे षड्ढोतो भवति षड्ढोता हवीनामैषः तम् राजेत किम् षड्ढोतकम् सन्तम् षड्ढोतेत्याचक्षते परोक्षेण पराक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रजत तस्मै पञ्चपकम् होतः प्रत्यशृणोत् स पञ्चहोता भवति पञ्चहोता हवीनामैषः तम् वाजेतम् पञ्चहोतकम् सन्तम् पञ्चहोतेत्याचक्षते पराक्षेण पराक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रजत तस्मै चतुर्थकम् होतः प्रत्यशृणोले स चतुर्होत भवति चतुर्होत हवीना मेढः तम् वाचेतम् चतुर्होतकम् सन्तम् चतुर्होतेत्याचक्षते पराक्षेण पराक्षप्रिया इवहिदेवाः तमब्रवीत् त्वम् वि मे नेदिष्ठतः प्रत्यश्रौणी त्वयि नानाख्यातारयिति तस्मान्न हि नागिश्चतुर्हतारयित्वारक्षते तस्माच्छुश्रूषपुत्रा नागम् हृद्यतमः नेदिष्ठो हृद्यतमः नेदिष्ठो ब्रह्मणो भवति य एवम् वेद ॐ ह्रीम् नमः शिवाय आत्मने नमः येनेदम् भूतम् भुवनम् भविष्यत्परिगृहीतमव तेन सर्वम् येन यज्ञस्ताजते ये सप्तहो तातम् मे मनः शिवसङ्कल्पमस्तु येन कर्माणि प्रचरन्ति धीराजतो वाचा मनसाचार्यन्ति यत्संविदमनुषञ्जन्ति प्राणिनस्तम् मे मनः येन कर्माण्यपसमनीषिणो यज्ञे कृण्वन्ति विदधे धीराः यदपूर्वम् यच्छमन्तः प्रजानाम् तन्मे मनः शिवसङ्कल्पमस्तु यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतम् प्रजासु यस्मान्न किञ्चन कर्म क्रियते तन्मे मनः सुषारथिरश्वानि भजन्मनुष्या भेषुभिर्वाजिन इव हृत्प्रतिष्ठम् यजधिरम् जिठम् तन् वै मनशिवदम् कल्पवस्तु यस्मिन् रजसामजोगुम् जयस्मिन्प्रतिष्ठारजनाभाविाः यस्मिश्चित्तकम् सर्वमोदम् प्रजानाम् तन् वै मनःशिपदम् कल्पवस्तु तत्र षष्ठम् त्रिशतकम् सबीरम् यज्ञस्य गुह्यम् नव नाम दश पञ्चत्रिकम् शतम् यत्परम् च तन् वैमनः यज्जाग्रतो दूरमुदैति दैवम् तत् स्वप्तस्य सैवैति दूरङ्गपम् ज्योतिषाम् ज्योतिरेकम् तन् वैमनः कल्पमस्तु ये नद्योः पृथिवी च ये पर्वताः प्रदिशोतिषश्च येनेदम् जगद्व्याप्तम् प्रजानान्तम् वे मनः शिवसङ्कल्पमस्तु येनेदम् विश्वम् जगतो बभो भजे देवापि महतो जातवेदाः तदेवाज्ञमसो ज्योतिरेकम् तम् मे मनः शिवसङ्कल्पमस्तु ये मनोहृदयङ्गे च देवाय दिव्याः पोजे सूर्यरश्मिः ते शृणोत्रे चक्षुषी सञ्चरम् तम् तन्मे मनशिवसङ्कल्पमस्तु अचिन्त्यम् चाप्रमेयम् चम् व्यक्ताव्यक्तपरम् च यत् सूक्ष्मात् सूक्ष्मतरम् येजम् तन्मे मनः शिवसङ्कल्पमस्तु एका च दश शतम् च सहस्रम् चाजुतम् च निजुतम् च प्रजुतम् चार्बुदम् च न्यर्बुदम् च समुद्रश्च मध्यम् चान्तश्च परार्धश्च तम् वैमनः शिवसङ्कल्पमस्तु ये पञ्च पञ्चदशशतम् सहस्रमजुतन्यर्बुदम् च ते अग्निचित्येष्टशास्त्रम् शरीरम् तम् वैमनः वेदाहमेतम् पुरुषम् महान्तमादित्य वन्दम् तपतः परस्तात् यस्य योनिम् परिपश्यन्त्य धीरास्तम् वै वरः शिवदम् कल्पमस्तु यस्येतम् धीराः पुणन्ति कवयो ब्रह्माणमेतम् तावृणतयन्तुम् स्थावरम् जङ्गमम् जौरागाधम् तम् वे वरः शिवदम् कल्पमस्तु परात्परतरम् चैव यत्परा चैव यत्परात्परतो ज्ञेयन्तम् मे मनः शिवजम् कल्पमस्तु पराः परतरो ब्रह्म तत्पराः परतो हरिः तत्परात्परतो परत धीशस्तम् मे मनः शिवजम् कल्पमस्तु या वेदादिजुगायत्री सर्वव्यापी महेश्वरी ऋग्यजुः सामाधर्वीश्च तम् मे मनः शिवजम् कल्पमस्तु यो वी देवम् महादेवम् प्रणवम् यः सर्वे सर्ववेदैश्चतम् मे मनःस्य पदम् कल्पमस्तु प्रजतः प्रणवोङ्कारम् प्रणवम् पुरुषोत्तमम् ओङ्कारम् प्रणवात्मानन्तम् मे मनःस्य पदम् कल्पमस्तु योऽसो सर्वे टु वेदेषु पठ्यतेश्च जयीश्वरः प्रकाशो निर्गुणो मे मनस्य वदम् कल्पमस्तु गोभ्यजट्टम् धनेन ह्याजुटाचबलेन च प्रजजा पशुभिः पुष्कराक्षम् तन्मे मनः शिव सङ्कल्पमस्तु त्रम्बगञ्जजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकणि बबन्धनान् वृत्योर्मुक्षी जमामृतात् तन्मे मनः शिव सङ्कल्पमस्तु कैलासशिखरे रम्ये शङ्करस्य शिवालये देवतास्तत्र तन्मे मनः शिव सङ्कल्पमस्तु विश्वतश्च क्षुरत विश्वतोमुख विश्वतो हस्त उत विश्वतस्पात् सम्बाहुभ्याम् न मिसम् वरत्रयेद्यावावृथिवे जनजम् देवजे गम् वे मनः शिव सङ्कल्पमस्तु चतुरो वेदानधीयीत सर्वशास्त्रजम् विदुः इतिहासपुराणानान्तम् वे मानो महान्तमुतमानो अर्भगम् मानभुक्षन्तमुतमानभुक्षितम् मानोवधिः पितरम् मोदमातरम् प्रियामानस्तनुमो रुद्ररीलिढस्तम् मे मनः शिवसङ्कल्पमस्तु मानस्तु केतन जयमानहाजिढिमानो गोढमानो श्रेशरीरिणः वीरान्मानो रुद्रभामितो वधीरहविष्मन्त मे मनः हृदयम् सत्यम् परम् ब्रह्मपुरिणम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विष्टरूपायवे नमो नमस्तम् मे मनः शिवसङ्कल्पमस्तु कररुद्राज प्रचेदेव मेधिष्टमाजरम् यसे वोचे वसन्तमग्हृदे सर्वोच्चेटरुद्रश्चस्मै रुद्राजरमास्त तन्मे वनः शिवसङ्कल्पमस्तु ब्रह्म जिज्ञानम् वृथमम् पुनश्चाद्विषमदः सुरिजो वेन आवह स बुद्धिया उपमास्य विट्टाः सदश्च यो निवसदश्च विवस्तन्मे मनः शिवसङ्कल्पमस्तु यः प्रानतो निमिषतो महित्वैकयिद्राजा जगतो बभोव यजीषे अस्य द्विपदश्च दुष्पदः देवा जगविषाभिधेवतन् मे मनः शिवसङ्कल्पमस्तु य आत्मदा बलदा यस्य विश्व उपासते प्रशिटम् यस्य देवाः यस्य छायामृतञ्जस्य मृत्यः कस्मै देवाय कविटाभिदेवतम् देवा देवा देवा मे मनः शिवधिम् कल्पमस्तु जो रुद्रा अग्नौ य अध्यजवाटधीटजो रुद्रा विश्वाभुवनाभिवेशदस्मै रुद्राजनवास्तदम् मे मनः शिवधम् कल्पमस्तु गन्धद्वाराधरिणाम् नित्यपुट्टाम् करीषिणीम् ईश्वरीयम् सर्वभूतानाम् तामिह पक्वजे श्रियम् तन्मे मनः शिवदम् कल्पमस्तु यैरम् शिवसङ्कल्पकम् सदा ध्यायन्ते ब्राह्मणाः ते परम् मोक्षम् गमिच्छन्ति तन् कल्पमस्तु ओम् ह्रीम् नमः शिवाय हृदयाय नमः सहस्रशीलिषा पुरुडः सहस्राक्षसहस्रपाद स्वभूमिम् विश्वतो मृत्वा अद्यतिष्ठद्दिशाङ्गुलम् पुरुढ एवेदकम् सर्वम् यद्भूतम् यच्छ भव्यम् उदामृतत्वस्येषा यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागिश्च पादोऽस्य विश्वा भूतारि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वैत्पुरुडः पादोऽस्येहाभवात्पुनः ततो विश्वम् जक्रामत् सा शनानशने अभि तस्माद्विराटजाजत विराजोऽधिपूरुडः स जातोऽत्यरिच्छत पश्चाद्वमिवधो पुरः यत्पुरुढेन हरिषा देवा यज्ञमतम् वदा वसन्तो अस्यासीताज्यम् ग्रीष्मजिध्वः शरद्धभिः सप्तास्यासम्बरिधजः त्रिः सप्तसमिधकृताः देवा तेन देवायजन्त साध्यारिषजश्च ये तस्मात् जज्ञात्सर्वहृदः सम्भृतम् ऋषराज्यम् पशुगिष्टादिश्चक्रे वाजव्यान् आर आरण्यान् ग्राम्याश्चे तस्माज्जज्ञात्सर्वहृदः रिजः सामानिजज्ञिरे छन्दागंसि जज्ञरे तस्मात् यजस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भजा ददः गावोहजज्ञिरे तस्मात् तस्माज्जाताजावयः यत्पुरुषम् जा जदधः करिधाम् च कल्पयन् मुखम् किमस्य गौ बाहो का गोरोपादावुच्येते ब्राह्मणा अस्य मुखमासीत् बाहोराजन्यः कृतः ऊरुदस्य यद्वैष्यः पद्भ्याम् शूद्रो अजाजत चन्द्रमामनसोऽजातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्न्यश्च प्राणाद्वायुरजायत नाभ्य आसीदम् तरिक्षम् श्रीष्णाद्योः समवर्तत लोकाग पढ्यांश्रोत्र तथा लोका अकदादा आदिव तम शुपे सर्वाचिधीर ना कृप्वस्ते धाता पुरा मुदा जहारक्र प्रद्वान्दस्त अमेवम् विद्वानवृत इह भवति नान्यः पन्थाय नाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्मानि प्रधमान्यासन् ते महिमानस्य जन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॐ ह्रीम् नमः शिरसे स्वाहा मध्यः संहृदः पृथ्व्यै रसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदध्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रेः वेदाहमेतम् पुरुषम् महान्तम् आदित्यवन्नम् तमसः तमेवम् विद्वानमृत भवति नान्यः पन्था प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदतः यो देवेऽभ्यातपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमोरुचाजब्राह्मजे वृतम् ब्राह्मम् जनयन्तः देवाग्रे तदब्रुवन् यस्त्वैवम् हनो विद्याते तस्य देवा, देवा असम्वशेः ह्रीश्च ते लक्ष्मीश्च पत्योः अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाना मम सर्वम् मनिषान ओम् ह्रीम् नमः शिवाज शिखाली वषट् आशुःशिषानो वृढभोनजुद्मघना घनः क्षोभनश्चरिढनीनाम् सङ्गन्दनानि मिषके कभीरस्य सगुंसेन अजयत्सागमिन्द्रः सङ्गन्दनेनानि मिषेन जिष्णुना तदिन्द्रेण जय जत तत्सहद्भञ्जुषो न रजुषुहस्तेन भृष्टा सजुषुहस्तैः स निढङ्गिभिर्वशी ज्ञ स्रट्टा स युध इन्द्रघनेन स किम् द्रष्टजित् स्वाम बाबार्झोद्बुदम् वा प्रतिहिताभिरश्च बृहस्पते परिरीजारथेन रक्षोहा निपबाधमानः प्रभञ्जन् सेनाः प्रभणायुधा जयन्नस्माकमेऽ्यपितार्थाना गोत्रभिरम् गोविदम् वज्रवा गोविदं वज्वप्रभणम् तमोजसा हिमसजाता अणवीरजध्वीन्द्रगुंस गायो न स गुंरभध्वम् बलविज्ञायस्थभिरः प्रवीरः सहस्वान् माजी उग्रः अभिवीरो अभिसत्त्वा सहोजाजैत्रमिन्द्ररथमातिष्ठगोवित् अभिगोत्रादिसहसागाहमारोदायो वीरः शतमन्यरिन्द्रः दुश्च वनः प्रधनाडाढजिढ्योऽस्माकंसेना अवतु प्रयुत्सु इन्द्र आसाम् नेता बृहस्पतिर्दक्षिणा ययः पुर देवसेनानामभिभञ्जतीनाम् जयन्तीनाम् मरुतो यन्त्वग्रे इन्द्रस्य विष्णवरुणस्य राज्ञ आदित्यानाम् मरुताम् शर्धमुग्रम् महामनसाम्भुवनक्षवानाम् घोडो देवानाम् जयतामूलस्था अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकम् अस्माकम् वीरा उत्तरे भवन्तस्मानुदेवा अवताभवेषु उर्धरिषयमघवण्णायुधान्युत्सत्त्वनाम् मामकानाम् महागंसि उद्धृद्रहन् बालिनाम् बालिनान्युग्रथानाम् जयतामे सुघोडः ओपप्रेत जयता नरः स्थिरावः सन्तु बाहवः इन्द्रावः अवदिष्टा परापदशलव्ये ब्रह्मजकंसिडा गच्छामित्रान् प्रविशमैषाम् कञ्चनोच्छिडः मर्माणि वर्म ते वर्मभिश्चादयामि सोमस्त्वा राजाभृतेनाभिवस्ता पुरोर्वरीयो वरिवस्तेनस्त्वयम् तन्तामनुमदन्तु देवाः यत्र बाणाः सम्पदन्ति कुमाराभिशिखा इव इन्द्र नस्तत्रभर्त्रः विश्वाः शमयच्छत् ओम् हे नमः शिवाज कवचाजहम् डमेकगपालान् निर्वभत्यैकमतिरिक्तैावन्तो गृह्यास्मस्तेभ्यः कमकरं शोणाधिज एव रुद्रान द्वितीराजतस्थ आष्टे रुद्रपशस्थुडस्वैषते रुद्रभागः सहस्वस्राम्बि गञ्जुडस्वभेडङ्गवेश्वाज पुरुडाजभेड जथ अस्मभ्यम् भेड जगम् सुभेद सुगम् मेटायेष्यावाम् वरुद्रमतिमह्यव देवन्त्यम्बगम् यथा जेटते रुद्रभागस्तञ्जुडस्वतेनावशेन परोमोजवतो दीह्यवतधम् वापि नाकहस्तकृर्तिवासा प्रतिपोरिडमेककपालान्निर्वहति जाता एव प्रजा रुद्रान्निरवदजते एकमतिरिक्तम् झरिष्यमाना एव प्रजा रुद्रान्निरवदजते एककपाला एकथैव रुद्रन्निरवदजते नाभिघारयति यदभिघारये अन्तरवचारिणकम् रुद्रम् कुर्यात् एकोल्मुखेन यन्ति तद्धि रुद्रस्य भागधेयम् इमाम् दिशम् यन्ति एद्रस्य दिशि स्वाजामेव दिशि रुद्रन्निरवदजते रुद्रा वा अपशुका या आहृतीनातिष्ठत असौते पशुरिति निर्दिषेद्यम् विष्यात् यमेव द्वेष्टि त्वमस्मै पशुर्निर्दिशति यदि न द्विष्यात् आखुस्ते पशुरिति ब्रूजात् न ना घ्राण्यान्पशुनिहिरस्ति नारण्यान् नाम अग्निमत्येव जुहोति मध्यमेन पर्णेन जुहोति शृग् अथो खलु अन्तमेनैव होतव्यम् अन्तत एव रुद्रम् निरवदजते एडते रुद्रभागः सह स्वस्याम्बिकजेत्याः शरद्वास्याम्बिका स्वसा तजावाजेड हि नश्चि जगन्हि नश्चि तजैवैनकम् यावन्त एव ग्राण्याः पशवः तेभ्यो भेदजम् करोति अवाम्बरुद्रपतिमहीत्याः आजडमे रीतामाशास्ते त्र्यम्ब गञ्जजामहजित्याः मृत्युर्मृक्षी रमामृतादिशिवामैतदाः उत्किरन्ति भगस्य लीप्सन्ते मूर्ते कृत्वा सजन्ति यथा जनम् यते वसम् करोति तादृगेव तद् एष ते रुद्रभाग इत्याह निरवत्यै अप्रतीक्षमायन्ति अपः परिषिञ्चति रुद्रस्यान्तरिहित्यै प्रवा एते यस्माल्लोकाच्चवन्ते येत्यम्बकैश्चरन्ति आदित्यम् चरम् पुनरेत्यनिर्वभति इयम्बादितिः अस्यामेव प्रतिष्ठन्ति ओम् ह्रीम् नमः नेत्रत्रजाज नेत्रजाभूषटे त्वमग्ने रुद्राजरामः शिवस्वगम् शर्धमारुषम् पृक्षरीषिषे त्वम् वातीर्यादृषम् गजस्त्वम् ओजाविषटः पाशीर्पला आवो राजानमधरस्य रुद्रगम् होदारगे सत्यज जगम् भोजस्याः अग्निम् पुरातनरित्रा रचित्ताद्धिरन्यरूपमवसे कृणुद्भम् अग्निरुहोता निषसा दाजिजीजानुपस्थे मातुः सुरभालोके युवाकविः पुरनिष्ठरितापा धर्ता कृष्णीनामुतमध्यजिद्धः सा भीमगर्देव वीतिर्ना अद्य यज्ञस्य जिह्वामविदावगुह्या स आयुरागात्सुरभिर्वसानो भद्रामकर्ते बभूतिन्न अद्य अक्रन्ददग्निस्तनजन्निवध्योः क्षामारेरिहत्पीरुदः समञ्जन् सद्यो जज्ञानोभिः मिध्वोरख्यतारोधसि भारुणाभात्यन्तः ते वसूनिपूर्वणिकहोदर्दोरावस्तोरे जज्ञिया सह श्रामे बश्वा भुवनानि यस्मिन् सकम् सौभगानि दधिरे पावके सुक्षितर सुक्षितजपृथग अग्ने कामाजनेमिरे अस्यामतम् का काममग्ने तभोद्यस्याम रजयुम् रजिव सुवीरम् अस्यामवाजमभिवाजयन्तोऽस्यामद्युम् न मराजरन्ते श्रेष्ठञ्जमिठ्ठ भारताग्नेभर वसु पुरस्पृहज रयिम् सस्वितानस्तन्यतोरोजनस्थ अजरेऽभिर्नानदद्भ्यर्जमिट्ठः जः पावकः पुरतमः पुरोणि पृथुन्यग्निरनुजाति भर्वन्ने आजुष्टे विश्वतो दध पुनस्ते प्राण आजति पराजखम् आयुर्दा अग्ने हविडाजुडा घृतप्रदेशो घटजो निरेधि घृतम् पीत्वा मधुषा ऋगव्यम् पितेव पुत्रमभिरक्षतादिवम् तस्मै ते प्रतिहर्यते जातवेदोऽपि चर्षणे अग्ने जनामि सुष्टुतिम् दिवस्परिप्रथमम् यज्ञे अग्निरस्मद्वितीयम् परिजातवेदाः तृतीयमत्सु नमणा अजश्रमिन्धा नयेन जरते स्वाधीः शुचिः पावकवञ्जोऽग्ने बृहद्भिरोचसे त्वम् घृतेऽभिराहुतः दृशानो रुक्म उर्व्या यद्यो दुर्मरिडमाज श्रिये आजजिषे नृपतिन्ते जारच्छुचिरे निषिष्टम् जौरभीके अग्निः श्रद्धमनभद्यम् युवानग्निस्वाधिजनयच्छोदयच्च स ते जीजसा मनसा शिक्षा शिक्ष। अग्ने राजो नृतपस्य प्रभूतो भोजामते सुष्ठुतयश्च अग्ने सघम् तमाभरद्युम्नस्य प्रासहार्यम् विश्वायश्च ऋषणीरभ्या सा वाजेडुसा सह तमग्ने प्रदना सहगं रजिगुन्दः स्वाभर त्वम् सत्यो अद्भुतो दाता वाजस्य गोमतः उक्षान्ना च वशान्ना भेददे स्तोम्यैर्विधेमाग्निरे बद्मा हि स त्वम् नवोर्जस नवोर्जम् धाराजेवजेन वृके क्षेक्ष्यन्तः अग्नायोगम् डिबवधा जवार्जमिडञ्जनः पारे बाधस्व दुच्छुणा अग्नेपवः स्वपा अस्मे वर्जस् सुवीर्यम् तोटकम् रजिम् मजि अग्ने पावकरोचि च मन्द्रया देवजिह्वजा आदेवानिवक्षिजक्षि च सरः पापगति दिवाग्ने देवाकम् विहवः उपरिज्ञकम् हविश्चरः अग्निःश्रुचिम् रदतमश्रुचर्विप्रश्रुतिः कविः दा शुचिरोचदुरः उदग्ने सुजस्तव शुक्राभ्याजन्दीरते तव ज्योतेगः शर्चजः त्वमग्ने रुद्रासुरामहादिवः त्वकंसद्धा मारुदम् ऋक्षजीषुटे तुम्बातीररुणेर्याजसङ्गजः त्वम् ओटा विधतः पाशिरुत्मनाः देवा देवे ऋष्यजध्वम् प्रथमा द्वितीये ऋष्यजध्वम् द्वितीयास्वितीरे ऋष्यदध्वम् तृतीयाश्चतुर्थे ऋष्यजध्वम् चतुर्थाः पञ्चमे रुष्यजध्वम् पञ्चमा षष्ठे ऋष्यजध्वम् षष्ठाः सप्तमे रुष्यजध्वम् सप्तमा अष्टमे ऋष्यजध्वम् अष्टमा नवमे ऋष्यजध्वम् नवमादशमे ऋष्यजध्वम् दशमाजेकादशे ऋष्यजध्वम् एकादशा द्वादशे ऋष्यजध्वम् द्वादशश्चोदशे ऋष्यजध्वम् त्रयोदशश्चतुर्दशे ऋष्यजध्वम् चतुर्दशः पञ्चदशे रुष्यजध्वम् पञ्चदश षोडशे ऋष्यजध्वम् षोडशः सप्तदशे ऋष्यजध्वम् सप्तदशा अष्टादशे डुष्यजध्वम् अष्टादशादेकान्न विहिंसेरुष्यजध्वम् एकान्न विहिंसा विहिंसेरुष्यजध्वम् विहिंसादेकविहिंसेडुष्यजध्वम् एकविहिंसाद्वाभिंसेरुष्यजध्वम् वावि हिंसाश्चोभिजिंसेरुष्यजध्वम् त्रयोभिंसाश्चतुर्विजिंसेरुषध्वम् चतुर्विहिंसाः पञ्चभिजिंसेरुष्यजध्वम् पञ्चवि हिंसा षड्भिंसेरुषरध्वम् षड्विंसा सप्त विहिंसेरुस्य रध्वम् स्त्रिगुंशास्त्रजस्त्रिगुंशे रुश्रजध्वम् देवास्त्रिरेकादशास्ति श्रजस्त्रिगुंशाः उत्तरे भवत उत्तरवर्त्मान उत्तरसत्त्वानः यत्कामजिदिञ्जुहोमि तन्मे समृद्धताम् वयज्ञस्यामपदजोरजीनाम् भोर्भवस्व स्वाहा ओम् ह्रीम् नमः शिवाज अस्त्राय भट् भूर्भवसुरा दिग्बन्धः झद्वसुरन्तरिट्टसद्भोता वेरिडदतिरसदृतसद्योपसदब्जातम् रहत् प्रद्विष्टस्तवते वीर्याज मृगानभीमर्पचरोगिरिट्टाः यस्यो रिषत् त्रिषु विक्रमणेषु अधिक्षिजन्त्रिभुवनानि विश्वाः श्रगिम् जरामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुगमिव बन्धनान् मृत्योर्मृक्षीजमावृतात् त्वत्सवितुर्वृणीमहे वयम् देवस्य भोजनम् श्रेष्ठगम् सर्वधातमम् तुरम्भगस्य धीमहि विष्णुर्योनिम् कल्पयतु त्वष्टारूपाणि विगिंसतु आशिञ्चत प्रजापतिः धाता गर्भम् दधातु ते हिरण्यगर्भ समवर्तताग्रे भूतस्य जालः परिरेक आसीत् सदाधारपृथिवीञ्जामुदेमा कस्मै देवाय हविडाभिधेम ओम् ह्रीम् नमः शिवाय उरसा उमामहेश्वराभ्याम् नमः यः निमिषतो महित्वे गजिद्राजा जगतो बभूव ययीशे अस्य द्विपदश्चतुष्पदः कस्मै देवाजघविडाविधेवा ओम् ह्रीम् नमः शिवाज शिरसा उमामहेश्वराभ्यान्नमः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषमदः सुजो वेन आवह स्वबुद्धिजापमा अस्य विष्ठा सतश्च योनिमसतश्च विवः ॐ ह्रीम् नमः शिवाय दृष्ट्या उमामहेश्वराब्ध्यान्नमः महेज्यः पृथिवी च न जिमञ्जम् विमिक्षताम् न भरेमभिः ओम् ह्रीम् नमः शिवाय मनसा उमामहेश्वराद्ध्यान्नमः उपस्वादर पृथिवीमुद्याम् पुरत्रा मनुताम् भिष्ठितम् जगत् सरन्दुभे सजोरिन्द्रेण देवैर्दूरादवीज अपधेधशत्रू ॐ ह्रीम् नमः शिवाज वचसा उमामहेश्वराब्ध्यान्नमः आग्ने न सुपथा राजे अस्मान् विश्वानि देवभजुनानि विद्वान् योऽध्यस्मज्जुहरा न मे नौरोजिष्ठान्ते नमभक्तिम् विधेम ॐ ह्रीम् नमः शिवाज पद्भ्याम् उमामहेश्वराभ्याम् नमः याते अज्ञे यज्ञिजातरोस्त्रजे अस्मे अच्छावसूनि कृण्वन्नस्मैर्यापुरोणि यज्ञो भूत्वा यज्ञमाधीरस्वाञ्जोनिम् जातवेदो भुवा जायमानः सखलेहि जा ॐ ह्रीम् नमः शिवाय कराभ्याम् उमा महेश्वराभ्याम् नमः इमयमप्रस्तरमाभिषीदाङ्गिरोभिः पितृभिः संविधानः मन्त्रा कविशस्तावहम् ते नाराजन कविडामादजस्व ॐ ह्रीम् नमः शिवाय कर्णाभ्याम् उमामहेश्वराभ्याम् नमः अथात्मानम् शिवात्मानम् श्रीरुद्ररूपम् ध्याजे शुद्धस्फटिकशङ्कासम् तृणेत्रम् चन्द्रशेखरम् गङ्गाधरम् दशभुजम् सर्वाभरणभोडितम् नीलग्रीवम् शशाङ्गाङ्गम् नागजज्ञोपवीतिनम् व्याघ्रधर्मोत्तरेजम् च भरेण्यमभजप्रदम् कमण्डल्वक्षसोत्राभ्यामन्वितम् शोलपानिनम् ज्वलन्तम् पृङ्गलजटा शिखामध्योदधारिणम् रुजस्कन्दसमारूढम् अमृतेनापृतम् घृष्टम् दिव्यभोजसमन्वितम् दिग्देवता समायुक्तम् सुरासुरनमस्कृतम् नित्यम् जशाश्वतम् शुद्धम् द्रुवमक्षरमम् जयम् सर्वव्यापिन ईशानम् रुद्रम् विश्वरोपिणम् एवम् ध्यात्वाद्युजसं प्रजनने ब्रह्मा तिष्ठत् हस्तजोर्हरस्तिष्ठत् बाह्वारिन्द्रस्तिष्ठत् जठरे अग्निस्तिष्ठत हृदे शिवस्तिष्ठत् कण्ठे बधवस्तिठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकजोर्वाजुस्तिष्ठतु नजनजोश्चन्द्रादित्यो तिष्ठेताम् कर्णजोरश्विनो तिष्ठेताम् ललाटे रुद्रास्तिष्ठन्तु मूर्ध्यादित्यास्तिष्ठन्त् शिरजमहादेवस्तिष्ठत् श्रीगाम् वामदेवस्तिष्ठत् पृठे पिनाके तिष्ठत् पुरतः शौरे तिष्ठत् पार्श्वजा शिवाशङ्करो तिष्ठेताम् सर्वदा वाजस्तिष्ठत् तदा बहिः सर्वदाग्निज्ज्वाला मालापरिवृतस्तिष्ठत् सर्वेष्वङ्गेषु सर्वा देवता यथा स्थानम् रक्षन्तु सर्वान् महाजनान् रक्षन्तु निपश्चित्ते पवमाना जगाजता महीनधारात्यन्धोऽर्हति अभिर्हजीर्णामति सर्पति त्वजम् अच्च न क्रीडम् न सरदृढा हरिः उपजाम गृहीतोऽसि मृत्यवे त्वा दुष्टम् भेधः समधञ्जहि अधानो अग्नावः भाजस्फोटकम् सहस्रिणम् एते सहस्रमयुतम् पाधाः मृत्यो मर्चाजहम् तवे तानि यस्य माययाः सर्वानवजमहे भक्षोः स्य मृतभक्षः तस्य ते मृत्युपीतस्य मृतवतः स्वगाकृतस्य मधुमतः उपहोदस्योपहोतो भक्षजामि मन्द्राविभूतेः केतुर्यज्ञानाम् वाक् असावेहि अन्धोजागृविप्राण असावेहि बर्हिराः कन्दतरपाल असावेहि परस्तोस्त्वा चक्षुः असावेहि अपादासोमनः असावेहि कवे विप्रचित्ते श्रोत्रा असावेः स्वहस्तः सुवासाः शोढो नामास्य मृतो मर्त्येषु तन्त्वाहम् तथा वेद असावेहि अग्निर्मे वाचि श्रितः वाघृतजे हृदजम्मयि अहममृते अमृतम् ब्रह्मणि वाजुर्मे प्राणे श्रुतः प्राणो हृदजे हृदजम्मयि अहममृते अमृतम् ब्रह्मणि सूर्यो मे चक्षुरिश्रुतः चक्षुरहृदये हृदजम्मजे अहमृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रुतः मनोहृदये हृदजम्मजे अहमृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रुताः श्रोत्र किम् हृदये हमृते अमृतम् ब्रह्मणि आपो मे रेतुधि श्रुताः रेतो हृदजे हृद जम्मजे अहमृते अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रुता शरीरकम् हृदजे हृदय जम्मजे अहमृते अमृतम् ब्रह्मणि ओटि वनस्पतजो मे लो मृधुश्रुताः लोबानि हृदजे हृदजम्मजे अहमृते अमृतम् ब्रह्मणि इन्द्रो मे बले श्रुतः बलगम् हृदजे हृदजम्मजे अहमृते अमृतम् ब्रह्मणि पर्जन्यो मे मूर्धे श्रुतः मूर्धा हृदजे हृद जम्बजि अहमृते अमृतम् ब्रह्मणि ईशानो मे मन्यो श्रुतः मन्दिरहृदये हृदजम्मजि अहमृते अमृतम् ब्रह्मणि आत्मा म आत्मनिः श्रुतः आत्मा हृदये हृद जम्वजि अहमृते अमृतम् ब्रह्मणि पुनर्म आत्मा पुनराजुरागात् पुनः प्राणः वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिक्षत्वमृतस्य गोपाः अथैनम् गन्धाक्षत पत्र पुष्पधूपदीपनैवेद्यताम्बूलैरभ्यर्च आत्मानम् प्रत्याराधयेत् आराधितो मनुष्यैस्त्वम् सिद्धे देवासुरादिभिः आराधयामि भक्त्या त्वाम् आङ्गेश्वर ओ